तथैकसप्ततितमः सर्गः स्वबलम् व्यथितम् दृष्ट्वा तु मुलम् लो महर्षणम् भ्रातॄंश्च निहताम् दृष्ट्वा शक्रतुल्यपराक्रमान् पितृव्यौ चापि सन्दृश्य समरे सन्निपातितौ युद्धोन्मत्तम् च मत्तम् च भ्रातरौ राक्षसोत्तमौ चुकोप महातेजा ब्रह्म दत्तवरो युधि अतिकायोद्रिसङ्काशो देवदानवदर्पः सभास्करसहस्रस्य सङ्घातमिव भास्वरम् रथमारुह्य शक्रारिरभिरुद्राववानरान् स विस्फार्य तदा चापम् किरीटी मृष्टकुण्डलः नाम संश्रावयामासननादचमहास्वनम् तेन सिंहप्रणादेन नाम ज्याशब्देन च भीमेण त्रासयामास वानरान् ते दृष्ट्वा देहमाहात्म्यम् कुम्भकर्णोऽयमुत्थितः भयार्ता वानराः सर्वे संश्रयन्ते परस्परम् ते रूपमालोक्य यथा विष्णोऽस्त्रिविक्रमे भयाद्वानरयोधास्ते विद्रवन्ते ततस्ततः तेतिकायम् समासाद्य वानरामूढचेतसः शरण्यम् शरणम् जग्मुर्लक्ष्मणाग्रजमाहवे ततोऽतिकायम् काकुत्स्थो रथस्थम् पर्वतोपमम् ददर्शथम् विनम् दूराद् गर्जन्तम् कालमेघवत् सतम् दृष्ट्वा महाकायम् राघवस्तु सुविस्मितः वानरान् सान्त्वयित्वा च विभीषणमुवाचः असौ पर्वत सङ्काशो धनुष्मान् हरिलोचनः युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः य एष निशितैः शूरैः सुतीक्ष्णैः प्रासतो मरैः अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः कालजिह्वा प्रकाशाभिर्य एषोऽभि विराजते आवृतो रथशक्तीभिर्विद्युद्भिरिवतो यदः धनूंशि चास्य सज्जानि हेमपृष्ठानि सर्वशः शोभयन्त्य रथः श्रेष्ठम् शक्रचापमिवाम्बरम् य एष रक्षः शार्दूलो विराजयन् अभ्येति रथिनाम् श्रेष्ठो रथेनादित्यवर्चसा ध्वज शृङ्गप्रतिष्ठेन राहुणाभि त्रिणतम मेघ निर्घ्राद् हेम पृष्ठमल शतक्रतधनु प्रख्यम धनुश्चा विराजते सध्वज स महारथः। साकर्षो महारथ चत सयुक्त मेघ स्तनिस्वन विंशतिर्दशाष्टौ चतणा से रथमा स्थिता द्वौ च खड्गी च पार्श्वस्थौ प्रदीप्तौ पार्श्वशोभितौ चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ रक्तकण्ठगुणो धीरो महापर्वतसन्निभः कालः कालमहावक्त्रो मेघस्थ इव भास्करः काञ्चनाङ्गदनद्धाभ्याम् भुजाभ्यामेष शोभते शृङ्गाभ्यामिव हिमवान् पर्वतोत्तमः कुंडलाभ्याभ्याति वक्षणस्वंतरगत पिपूर्ण निशाक आचक्ष महाबात्मे नंम राक्षसोत्तम ये भयाता दुता दिशा स पृष्टो राजजपुत्रेण रात तेजस आचचक्षे महातेज राघवाय विभीषण दशग्रीवो महातेज राजा वैश्रवणानुजः भीमकर्मा महात्मा हि रावणो राक्षसेश्वरः तस्यासीद् वीर्यवान् पुत्रो रावणप्रतिमो बले वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषाम्बरः अश्वपृष्ठे नागपृष्ठे खड्गे धनुषिकर्षणे भेदे सान्त्वे मन्त्रे च सम्मतः यस्य समाश्रित्य लंका भवति निर्भया तनयम् धान्यमालिन्या अतिकायमिमम् विदुः एतेनाराधितो ब्रह्मा तपसाभावितात्मना अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः सुरासुरैरमध्यत्वम् दत्तमस्मै स्वयम्भुवा एतच्च कवचम् रथश्चरविभास्वरः एतेन नशतशो देवा दानवाश्च पराजिताः रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः वज्रम् विष्टम्भितम् येन बाणैरिन्द्रस्य धीमता पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा एषोतिकायो बलवान् राक्षसानामथर्षभः स रावनसुतो देवदानवदर्पः तदस्मिन् क्रियताम् यत्तः क्षिप्रम् पुरुषपुङ्गवा ततोतिकायो बलवान् प्रविश्य हरिवाहिनीम् विस्फारयामास धनुर्ननाद च पुनः दृष्ट्वा रथस्थम् रथिनाम् वरम् अभिपेतुर्महात्मानः प्रधाना एव कुमुदोऽ द्विदोमयीम् दो नीलः शरभ एव च पादपैर्गिरिशृङ्गैश्च युगपत्समभिद्रवन् तेषाम् वृक्षांश्च शैलांश्च शरैः कनकभूषणैः अतिकायो महातेजाश्चिच्छेदास्त्रविदाम्बरः तांश्चैव सर्वान् सहरीच्छरैः सर्वायसैर्बली दिव्याधाभिमुखान् भी सङ्ख्ये भीमकायो निशाचरः र्दिता बाणवर्षेण भिन्न गात्राः पराजिताः नशे शेकुरति कायस्य प्रतिकर्तुम् महाहवे तत्सैन्यम् हरिवीराणाम् त्रासयामा स राक्षसः मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः स राक्षसेन्द्रो हरियूथमध्येनायुध्यमानम् निजघान कञ्चित् उत्पत्य रामम् स धनुः कलापि सगर्वितम् वाक्यमिदम्बभाषे रथे स्थितोऽहंशरचापपानिर्न प्राकृतम् कञ्चन योधयामि यस्यास्ति शक्तिर्व्यवसाय ददातु मे शीघ्रमिहाद्ययुद्धम् तत्तस्य वाक्यम् ब्रुवतो निशम्यचुकोऽपसौ मित्रिरमित्रहन्त अमृष्य सत्त्पात जग्रह चाप ततस्मि क्रुद्ध सौ मित्रित्पत्तणाक्षिप्य सायक पुराता का विचकर्ष महधनु पूयी सौमित्रेश्चापनिर्घोषम् श्रुत्वा प्रतिभयं तदा विसि स्मिये महातेजा राक्षसेन्द्रात्मजो बली तदातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम् आदाय निशितम् बाणमिदम् वचनमब्रवीत् बालस्त्वमसि सौमित्रे विक्रमेष्व गच्छ किम् कालसङ्काशम् माम् योधयितुमिच्छसि न हि मद्बाहुसृष्टाणाम् बाणानाम् हिमवानपि सोढुमुत्सहते वेगमन्तरिक्षमथो मही सुखप्रसुप्तम् कालाग्निम् विबोधयितुमिच्छसि यस्य चापम् निवर्तस्व अथवा त्वम् प्रतिस्तब्धो न तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम् पश्य मे निशितान् बाणान् रिपु दर्प निषूदनान् ईश्वरायुध सङ्काशान्स्तप्त काञ्चन भूषणान् एष ते सर्प सङ्काशो बाणः नागराजस्य शोणितम् इत्येवमुक्त्वा सङ्क्रुद्धः शरम् श्रुत्वाति कायस्य वचः स रोषम् संयति राजपुत्रः सञ्चुकोपाति बलो मनस्वी उवाच वाक्यम् च ततो महार्थम् न वाक्यमात्रेण भवान् प्रधानो न कत्थनात् सत्पुरुषा भवन्ति मयि धन्विनि बाण पाणौ निदर्शय कर्मणा सूचयात्मानम् न विकत्थितुमर्हसि पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः सर्वायुधसमायुक्तो धन्वी त्वम् प्रथमास्थितः शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्वपराक्रमम् ततः शिरस्ते निशितैः पातयिष्याम्यहम् शरैः मारुतः कालसम्पक्वम् वृन्ता तालफलम् यथा अद्यते माम काबाणास्तप्तकाञ्चनभूषणाः पास्यन्तिरुधिरङ्गात्राद्बाणशल्यान्तरोत्थितम् बालोऽयमिति विज्ञाय न चावज्ञातुमर्हसि बालो वा यदि वा वृद्धो जानीहि संयुगे बालेन विष्णुना लोका स्त्रयः क्रान्ता लक्ष्मणस्य वच श्रुत्वा हेतुमत्परमार्थवत् अधिकायः प्रचुक्रोध चोत्तममाददे ततो विद्याधरा भूता देवा दैत्या महर्षयः गुह्यकाश्च महात्मानस्तद्युद्धम् द्रष्टुमागमन् ततो तिकायः कुपितश्चापमारोप्य सायकम् लक्ष्मणाय प्रतिक्षेप सङ्क्षिपन्निवचाम्बरम् तमापतन्तम् निशितम् शरवाशीविशोपमम् अर्धचन्द्रेण चिच्छेदलक्ष्मणः परवीरः तम् निकृत्तम् शरम् दृष्ट्वा कृत्त भोगमिवोरगम् अतिकायो भुषङ्क्रुद्धः पञ्चबाणान् समादधे ताञ्छरान् सम्प्रचिक्षेपलक्ष्मणाय निशाचरः तानप्राप्ताञ्छितैर्बाणैश्चिच्छेदभरतारुजः सताञ्छित्त्वा शितैर्बाणैर्लक्ष्मणः परवीरः आददे निशितम् बाणम् ज्वलन्तमिव प्रमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणः द्विचकर्ष च वेगेन विससर्ज च सायकम् पूर्णायत विसृष्टेन शरेण नतपर्वणा ललाटे राक्षस श्रेष्ठमाजघानस वीर्यवान् स शरो मग्नस्तस्य भीमस्य रक्षसः ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले राक्षसः प्रचकम्पेऽथ लक्ष्मणेषु प्रपीडितः रुद्रबाणः तम् घोरम् यथा त्रिपुरगोपुरम् चिन्तयामास चाश्वस्य विमृश्य चा महाबलः साधुबाणनिपातेन श्लाघनीयोऽसि मे रिपुः विधायैवम् विदार्यास्यम् विनम्य रथेन प्रचारः एकम् त्रीन् सायकान् राक्षसर्षभः आददे सन्दधे चापि विचकर्षोत्ससर्ज च ते बाणाः कालसङ्काश राक्षसेन्द्रधनुश्च्युताः हेमपुङ्खारविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ततस्तान् राघवानुजः असम्भ्रान्तः तान् छरान् युधि सम्प्रेक्ष्य निकृत्तान् रावणात्मजः चुकोपत्रिदशेन्द्रारिर्जग्राहनिशितम् शरम् ससन्धाय महातेजास्तम्बाणम् सहसोत्सृजत् तेन सौमित्रिमायान्तमाजघानस्तनान्तरे अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि स चकार विशल्यं विशल्यम् सहसा विभुः जघ्राह च शरम् तीक्ष्णमस्त्रेणापि समाददे आग्नेयेन तदास्त्रेण योजयामाससायकम् स जज्वाल तदा बाणो धनुष्यस्य महात्मनः हा। अतिकायोऽति तेजस्वी समाददे तेन बाणम् भुजङ्गाभम् हेमपुङ्खमयोजयत् तदस्त्रम् ज्वलितं घोरं लक्ष्मणः शरमाहितम् अतिकायाय चिक्षेप कालदण्डमिवान्तकः आग्नेयास्त्राभिसंयुक्तम् दृष्ट्वा बाणम् निशाचरः उत्ससर्ज तदा बाणम् रौद्रम् सूर्यास्त्रयोजितम् तावुभावम् वरे तेजसा सम्प्रदीप्ताग्रौ क्रुद्धा तावन्योन्यम् विनिर्दह्यपे ततोः पृथिवीतले निरर्चिषौ भस्मकृतौ नभ्राजेते शरोत्तमौ तावभौ दीप्यमानौ स्म महीतले ततोतिकायः सङ्क्रुद्धस्त्वाष्ट्रमैशीकमुत्सृजत् ततश्चिच्छेदसौ मित्रिरस्त्रमैन्द्रेण स्त्रेण सक्रुद्धोंजयामासायक ततस्तस्त्र चिक्षेप लक्ष्मय वाय्येण तदस्त्रेण निजघानस लथनम शरधारा भीवत यद अभ्यवर्षत सक्रुद्धो लक्ष्मो रावणात्मज काय सवचे वज्रभूषिते भग्नाग्रशल्याः सहसा महीतले तान् मोघानभिसम्प्रेक्ष्य लक्ष्मणः परवीरः अभ्यवर्षत बाणानाम् सहस्रेण महायशाः सवृश्यमाणो बाणोघैरतिकायो महाबलः अवध्यकवचः सङ्ख्ये राक्षसो नैव विव्यथे शरम् चाशीविषाकारम् लक्ष्मणाय व्यपासृजत् सतेन तेन विद्धः सौमित्रिर्म देशे शरेणः मुहूर्तमात्रम् निःसञ्ज्ञो ह्यभवच्छत्रुतापलः ततः सञ्ज्ञामुपालभ्य चतुर्भ्यः सायकोत्तमैः निजघानः यान् सङ्ख्ये ममोचलक्ष्मणो बाणान् वधार्थम् तस्य रक्षसः न शशाकरुजम् कर्तुम् युधितस्य नरोत्तमः अथैनमभ्युपागम्य वायुर्वाक्यमुवाचः ब्रह्म दत्तवरोह्येष अवध्यकवचावृतः ब्राह्मेणास्त्रेण भिन्ध्येन मेष वध्योहिनान्यथा अवध्य एष ह्यन्येषामस्त्राणाम् ततस्तु वायोर्वचनम् निशम्य सौमित्रिरिन्द्र प्रतिमान वीर्यः समादधे बाण मथोग्रवेगम् तद्ब्राह्ममस्त्रम् सहसा दिशश्च चन्द्रार्क नभश्च तत्रास तम् ब्रह्मणोऽस्त्रेण नियुज्य चापेशरम् यमदूतकल्पम् सौमित्रिरिन्द्रारि सुतस्य तस्य ससर्ज बाणम् युधि वज्रकल्पम् तम् लक्ष्मणोत्सृष्ट विवृद्ध वेगम् तम् प्रेक्षमाणः सहसातिकायो जघाण बाणैर्निशितैरनेकैः स वेगेन वे जगाम जगामपार्श्वम् तमागतं प्रेक्ष्य तदातिकायो बाणम् प्रदीप्तान्तक कालकल्पम् जघान शक्त्यृष्टिगदाकुठारैः शूलैः शरैश्चाप्यविपन्न चेष्टः न्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः प्रगृह्य तस्यैव किरीटजुष्टम् तदातिकायस्य शिरो जहार तच्छिरः स शिरस्त्राणम् लक्ष्मणेषु प्रमर्दितम् दृष्ट्वा विक्षिप्ताम् बभूवुर्व्यचिताः सर्वे हतशेषा निशाचराः ते विषण्णमुखादीनाः प्रहारजनितश्रमाः विनेदुरुच्चैर्बहवः सहसा विस्वरैस्वरैः ततस्तत्परितम् याता निरपेक्षा निशाचराः पुरीमभिमुखा भी भीता द्रवन्तो नायके हते प्रहर्षयुक्ता अपूजय लक्ष्मण मिषागि नमतेपौ भीम बले दुरासदे अति बल्रकल्पम युधि विपात स लक्ष्मण प्रहृतदा सरा बार्वहि जगाम इशे श्रीमद् राये युद्धकाण्डे एकसप्ततितमः